कृष्णयजुर्वेदतैतिरीयशाखायाम् ब्राह्मणभागे प्रथमाष्टके प्रथमप्रश्नः प्रारम्भः सन्धत्तन्दन्मे जन्म शत्रगो सन्धत्तन्दन्मे जन्वतम् इशगो सन्धत्तन्तान्मे जन्वतम् जगोसन्धत्तन्दाम्मे जन्मतम् ऐरिगो सन्धत्तन्ताम्मे जन्मतम् पुष्ट्यगोसन्धत्तन्ताम्मे जन्मतम् प्रजागोसन्धत्तन्दाम्मे जन्मतम् पशून्सन्धत्तन्दान्मे जन्मतम् स्तुतोऽसि जनधाः एवास्त्वा शुक्रवा प्रणयिन्दु श्रीराः प्रजा प्रजनयन्मरीः शुक्रशुक्रशोजा स्तुतोऽसि जनधाः देवास्वान्धिवा प्रणयिन्दो स्वप्रजाः प्रजाः प्रजनयम्बरीहि वन्ध्य वन्धिषो दिषा सन्ध्यग्नो दिवा पृथिव्यायोः सन्धत्तन्दन्मे जिन्मतम् प्राणगो सन्धत्तन्दम् मे जिन्मतम् पाणगो सन्धत्तन्दम् मे जिन्मतम् प्राणगो सन्धत्तन्दम् मे जन्मतम् चक्षुःसन्ध तन्दन्मे जन्मतम् श्वात्र गोसन्धत्तन्दन्मे जन्मतम् प्राणः सन्धत्तन्दन्मे जन्मतम् आयुगुणसन्धत्तम् ताम् मे जन्मदम् आयुश्च आयुर्मेधत्तम् आयुर्वयधत्तम् आयुर्वयधम् चक्षुर्मेधत्तम् चक्षुर्यज्ञायधत्तम् चक्षुर्यज्ञपदेयधत्तम् श्रोतृग्वश्च श्रोत्रम् मेधत्तम् श्रोत्रम् यज्ञायधत्तम् श्रोत्रम् यज्ञपदेधत्तम् औदेवो शुक्रावन्थिनौ कल्पयदन्देभिर्विशः कल्पयदन्मानुषीः विषमोद्यमस्मासु दत्तम् प्राणान् पशुषु प्रजाम्मयि च यजमाने च नरस्तषण्डः नरस्तो मर्कः अपनत्तो षण्डामर्कौ सहामुनाः शुक्रस्य समिदसि मन्दिरः समिदसि सप्रथमः सङ्कृतिर्विश्वकर्मा सप्रथमो मित्रोपर्णाग्निः सप्रथमो बृहस्पतिश्च एतद्वा अग्ने नक्षत्रम् यत्कृत्तिकाः स्वायामेव भवतिकृत्तिकाति अथो खलु अग्निनक्षत्रमित्युपजायन्ति गृहानुहदामुको भवति प्रजापतिरोहिण्यामग्निवारोहिण्यामादो वैदे सर्वानुरोहा ेव भद्राः सन्दोग्निमादि हे रामनाहितोग्निराधीवस्वनवस्वराधानवामं वसोपावर्तदा पुरा भद्रः सन्वापी यान् स्यात् स्व पुनर्वस्वार्मिमादधीता ेवीपा वर्तते यः कामयेदानकामा मे प्रजा सुहृदि सपूर्वयो फल्गुण्यो रग्मादधीता हरिं नो वा एतन्नक्षत्रम् हरिपोरेफल्गुनि हर्यमेत नो ददाति दानकामास्मि प्रजा भवन्ति यःकामयेद्भगी स्वामिनि स उत्तरयोः फल्गुण्यो रग्मादधीता वा एतन्नक्षत्रम् यत्त्वरे भवति ञ्जावीनामासुराः सन्मता पुरुषष्टकामुपादत् पुरुषैष्टकाणैष्टकामुपादत् लोकमाप्रादोहन् स इन्द्रैष्टकामाबृहत् हे वागीर्यन्दे वागीर्यन्द तोर्नामभयान् तौ दिव्योश्वानामभवताम् यो भ्रादुर्या स्यात् सित्राया ब्राह्मणो वै प्राह्मनस्य स एव मृदाबाधाय ब्रह्मवर्षे भवति वसन्दः यो वसन्दाज्ञमादत्ते मोक्ष एव भवति प्रजादमादत्ते ग्रीष्मेराजन्यः आदधीत यीष्मो वैराजन्यश्यक्तो वे स्व एवेन मृताबाधाय इन्द्रियावीभवति शरदयवैष्य आदधीत शरद्वयवेश्य शक्तो स्व एवेन मृताबाधाय कुषमान् भवति न पूर्वयोः फुल्गुन्योरग्निमादधीतैजन्यारात्रिसंवत्सरस्य यत्पूर्वे फुल्गुनीष्ठित एव संवत्सरस्याग्निबाधाय आबीयान् भवति पुत्रयोरादधीता एषा वै प्रथमारात्रसंवत्सरस्य एव संवत्सरस्याज्ञमाधाय असीयाम् भवति अथवा खलु देवीनम् यज्ञोपनमेत तथा तधीता श्रीवास्यभिः उद्धन्ति देवास्यामेद्यम् अलवहन्ति अभोशान्तिगतानि भवति एतद्वाज्ञेम् रूपेणैव वैश्वानरमब्रन्थे पुष्टिर्वा एषा प्रजननम् प्रदुषाः पुष्यामेव प्रजनने यज्ञमाधत्ते अथोन एवशूनाम् यदुषाः सहस्राम् ते वितीयब्रूताम् अस्वे मनो सह यज्ञेयमितिमुष्या यज्ञेयमासीत् तस्यावदतात् मूषा अभवन् तदनुष्यामददाश्चन्द्रम कृष्णम् एवम् कृत्वा स पृथिवीम् प्राविशद सी कुर्वाण पृथिवीम् न समचरद तदा खुगरीशमभवद यदा खुकरीशमुभारो भवति तदेवास्य ृन्धे ऊज्यम् वा एतगोरसम् पृथिव्या उपदेकौ भवति भवति एवम् वेदा प्रजापतिः प्रजाः सृजता सामन्न क्षीयता सामन् मन्ना क्षीयत यस्य सोधस्सम्भारो भवति नास्य गृहेन्न क्षीयते आ भो वा इदमग्रे सृलमासीद तेन प्रजापदर्श्याम्यत कथमग्रस्यादि सोऽपश्यत् पुष्करवर्णम् तिष्ठत सो मन्यता यस्मिन्निलमी स्वराहो रूपम् कृत्वा वन्यमद्यत सपृथिवीपदाहमद्ये प्रथयत्प्रथयत् तत्पृथिव्ये पृथिवित्वम् तद्भूम्ये भो वित्वम् समवद भूदि तच्छारागुशक्करत्वम् यद्वराहभिहसंभारो भवति तस्यामेवाचार्यमासत्ते शङ्कराभवन् निरुत्यैः अथो सन्दाय सर्वेवादे अश्वरूपम् <Sess> कृत्वा तदश्वत्थस्याश्वम् यदाश्वत्थस्संभारो भवति यदेवाशत्रन्यक्तम् तदेवावृन्धे देवा वाूर्दौदुम्बर उदश्च ऊर्वा भवति ऊर्जमेवावृन्धे तृतीयस्यामितोपि सोम आसीत् तस्य पर्णमच्छिद्यथा तत्पर्णोऽभवत् तत्पर्णस्य पर्णत्वम् तस्य पर्णवयस्संभारो भवति सोमपीठमेवावृन्धे तच्छम्ये शमित्त्वम्भारो भवति एवावृन्धे सहृदयोग्रिराजेभारो भवति सहृदयमेवाग्निमादत्ते आदिषु चिग्रामेष्वग्निमादधी द्वादशमासेवेन वृत्त्याग्रामेष्वादधी परिमितमवृन्धीर चक्षुर्निमितान्धे अनृतम् वै वाचावदति अनृतम् मसाध्यायिनि चक्षुर्वै सत्यम् अत्रार्शनीसत्यम् चक्षुर्निमिते निमाधत्ते सत्य एवमाधत्ते अस्मादाहिताग्न्मानुगम् वदेश्राह्मश्वान्विहे वसेर् स्याज्ञराहितः आज्ञेयै रात्रिः आज्ञया पशुवः इन्द्रमः कङ्गारः पत्यमादधाति पशूनेवावृन्धे इवाहमनीयम् इन्द्रियमेवावृन्धे अर्थोदिरे सूर्य आहमीयमादधाति एतस्मिन् वै लोके प्रजापतिः प्रजा, प्रजा, प्रजा यदा एव तद्यजमानसृजते अथो भवत्याम् भविष्यन्तीति भद्रो भूत्वा भवति सा शृणोत् देवाग्नदैरि तदक्ष एन्वाहादता सा प्रवीर् प्राक्षे श्रीरगाद् भद्रा भोक्त्वा सुवर्गल् एष्यन्ति प्रवेश्यन्दस्यैव मुद्रा दीयते प्राक्षश्रीरेति भद्रो भोक्त्वा सुवर्गल्लोकमेदि प्रियान्त सा प्रवीरि लोके प्रत्यतिष्ठत यस्य वातमित्राधीयते आ देवताभ्यो वृष्ट्यते मामीयान् भवति श्रीयान् भवति ी्यासाम् ब्राह्मणीनाम् व्रतपदे पुतेनादधामी द्राज्ञा इन्द्रस्य व्रतपदे पुदेनाथ धामीति राजन्यस्यो व्रतपदे पुदेनाधामिवैष्यस्य गोणान् त्वा देवानाम् प्रदपदे प्रदेनादधामीतिरथकारस्य देवताम् भवति प्रियापिदस्सत्यमपश्यत् तेनाग् तेन वैद्यात्मासुवर्त्याः एतद्वै वाच्यम् एतेनाग्निमाधत्ते प्रथमात्येव अथो सत्यप्राशोरेव भवति अथो एवम् विद्वानभिचरति श्रुत एवैनम् भूवृत्याः एव सृजते भोः अस्मिन्नेव लोके प्रतिष्ठति सुवृत्याः सुवर्गे एव लोके प्रतिष्ठति विभिरक्षते तये लोकाः तेष्वेवैनम् लोकेषु सर्वैः स्वर्गा एव लोकाय धीयते तास्मायन्ना गृह्णीयार्थ एष तदस्वम् पुरस्तार्नयति जातानेवणदते पुनरावर्तयति म् यदस्वम् पुरस्तान्न यदिभक्तिरेव ततो नानावीर्या दाहाय त्रयधाः हीमानमेवासि दव्योहरि शान्तप्रदाय पुनरा हीमानमेवास्य एष्यमाणस्याक्रमयेत् यथा हि तस्यात्म्यो अवृद्धास्को भवन्ति दधाति विराज एव विक्रमते ग्नौ बालम्ब सुसंज्ञ ग्दित्या पुनरवारुत्सन्ता हे मये पवमानाय बरोलासमष्टाकवालो वा निःपवमानः हे एकाय आपोवाग्निःपावकः ते श्रुते अथो वा आद्यो निःश्रुचिः तत्तेनावारुन्धतावादिना वदन्ति तनुभोवात्मैव वाष्टाकपालो ज्ञाधेयमिलीतानि स्यात् नाङ्गानिवदत् तदेतानि निर्मेत् न तम् तथाङ्गानि स्युः तादृगेव तद् उभयानि सह निरुप्याणि यस्य आत्मत्वायम् वा एतस्य इन्द्राग्यमेकादशम् भवेद् आदित्यम् शुरुम् इन्द्राज्ञीवि देवानामया दयामानौ ये एव देवदेह्या दयाम्नि आभ्यामेवास्मा इन्द्रियम् वीर्यमवलम्भे आदित्यो भवति इयम् वा अस्यामेव प्रतिष्ठति एतत्ेदः कृते भवति यज्ञस्या लोभोक्षान्तीव चोति हवीपुंसि एषवृद्धः सत्य एतानि हवींशित् पुत्रा पशुर्यात् अपयुतमानः स्यात् अनवृद्धास्य पशुवस्युः संवत्सरे नैवायित्वाशूनबन्धेकमेकमेतानि हवींशत् रात्रीण्यापदानि पूरयेत् तादृपद न प्रजनक्षिंशेत् एकम् तृप्य स्मै लोकमुच्छिंशप्रजनाय प्रजया पशुभिरन प्रजायते मनुष्यरचयेनैव देव रथम् प्रत्यवरोहति ब्रह्मवादिना वदन्तित्रा यथा पूर्वमाहुदिजुहुयात् अन्नजुहूयात् अग्निपरा भवेत् तूष्णीमेव होदव्यम् यथा पूर्वमाहुदिजुहीतिपरा भवति अग्नि अग्निमुखानेवम् ब्रह्मणेः इन्द्रियमेवावृन्दे हेलमहोत्रेः आशिष एवावृन्देड्वाहमद्धर्यवेर्वाहन वह्निरैव वह्नेस्यावृे ददाति विषरस्यावृद्धि पातो ददाति सर्वदेव देवता प्रीणादि आद्वादशभ्यो ददाति द्वादशमासाः संवत्सर संवत्सर एव प्रतिष्ठति काममोर्धं देयम् अपरस्यावृद्धिस्तः पशुभितनया ये प्रातः प्राणस्तदेवनिः शुविर्भूत् श्रुतिम्पदेः संप्रियः पशुभिग्भवद् यत्के शुक्रशुक्रम् चेन मे दीनिपादते अग्निनाग्ने ब्रह्मणायुर्व्यादशे एतेग्नेशु वेदनो उच्चेमाविशदान्ते मा जन्मताम् एतेग्नेश वेतनो सम्राट्य विभुश्च हेमाविशदान्ते मा जन्मताम् एतेग्ने वेदनो विभोश्च प्रभुश्च हेमाविशतान्ते मा जन्मताम् एतेग्ने भिरमम् गच्छते लोकाग्नयः ते शोचयमानम् धर्मश्चन्वाहार्यश्चैवीनान् व्यावृत्तयति तथा न शोचयम् दीयमानम् तथन्तरमभिगायितेकारः वृत्त्यारो वा इयम् लोकः अस्मिन्नेवेदम् लोके प्रतिष्ठितमादत्ते आमदेव्यमभियितौद्धीयमाने अन्तरिक्षम् वैवामदेव्यम् अन्तरिक्ष एवम् प्रतिष्ठितमाधत्ते सोऽशान्तिर्वैवामदेव्यम् शान्तमेवेनम् विसव्यमुद्धरते सो लोकः अमुष्मिन्नेवेनम् लोके प्रतिष्ठितमाधत्ते प्रजापतिरतिमसुयुत सो सोवारो भूत्वारवन्तीयेनावारयितारवन्तीयस्य वारवन्तीयत्वम् श्रेयेन श्वेती शेतत्वम् धर्मस्य माधत्ते वा एषि सदा यजमानस्य पशुंसि ेवनयायम् न्नम् अन्नमेवावृन्धेत्याः एव ेन प्रतिष्ठत्ते तीवादात्ते घोरास्तनवस्ताम् गच्छेत् वाग्नेर तनुः, ेषणो प्रास्नात् सारे तस्यै धाराचार्यमाचारताम् अस्या उच्छेशणो प्रास्नात् सारे दत्ता तस्यै मित्रस्य वरुणश्चाजायेताम् सा तदीयमपृचत् तस्याविच्छेषणमधुः अप्राश्न्यात् सारेतो दत्ता तस्याश्च भगश्चाजायेताम् सा च तत्थमपृच्छत् तस्याविच्छेषणमदुः अत्राश्न्यात् सारेतो दत्ता तस्या इन्द्रश्च वस्वाविश्चाजायेताम् नभोदनम् वचति तेत एव दधाति काश्चि ब्राह्मणाबोधनम् राज्यमुच्छिष्यते तेन सविधो दधाति उच्छेशणाद्वादितादेवत्ते वा एतत्त्वायीर्भवन्ति यदा संविधार्भवन्ति यज्ञपुरुषा संविदाीर्भवन्ति एता छन्दाभिप्राः सस्यछन्दसप्रत्ययेन सस्यछन्दसप्रत्ययेन जगति <Sessimus> गर्वैष्यगति ैस्तागोत्री निष्ठपेत् त्याहो यः समिधो नायाज्ञमादत्त इति ताः संवत्सरे पुरस्तादात् भवन्ति एवास्य भवन्ति प्रजापतिः प्रजानामन्यता स आत्मन् वीर्यमपश्यता तस्मात् सम्यता सा विराटपद कान्देवासुराव्यगुण्डता सोऽ प्रजापतिः ुष्माकमिति सा तु प्रतिपर्यति सा द्वितीय तत्प्रजा प्रतिपर्य जाम्य गोयेदक्रामगृह्मद तत्प्रजापतिप्रियगुणारे मन्त्रे गो भाये क्रमदा तां प्रजापतिप्रियगुणार तथा भन्तिरे वा भक्तिर्वा एषा मने प्रविष्टा तस्मादेतावन्तयेत्याः अन्नमेवेदेन स्पृणोति नव्यप्रियां मे गोपायेत्याः प्रियामेवेतेन स्ृणोति सकृश्यमशोन्मे गोपायेत्याः शूनेवेदेन स्मृणोति सप्रसर्वान्मे गोपायेत्याः पत्नी स्याभीष्ट प्रीतास्याभीष्टिता यत्सभायां दे ीतः यदा ब्राह्मणाय गृहे वासनेपरि पुनरागत्योपतिष्ठते सा भागेयमेवैकान्तर्धारोहारोहिण्यभवद् अत्रोहिन्यैरोहिण्यत्वम् स एवन्यो कृतिश्च तत्ते पद् इति प्रथमाष्टके प्रथमः समाप्तः